एवपतिवसकम जरासंद पड़एड़प सैरंद्रियादुशि स्मराधो भू सुलितवन न साधं ुपगमोत्सव सद्याय प्रतिदिनवास सज्जि उपगते पूर्ण प्रमदसम्भ्रमकम् प्रभयो दरा विवितमाननमाददति मुदा रगसिताम् रमयाम् चकृषे सुखम् दृष्ट्वा वरम् पुनरसाववृणो त्वराकी भूयस्त्वया सुरतमेव निचान्तरेषु सायुज्यमस्विति वेद्भुत कामम् सामीप्यमस्त्वनिचमित्यविना ब्रवीत् ततो भवान् देव निचासुकासु चेत् मृगीदृशम् ताम् विनोदयन् अदातु पश्लोक इति श्रुतम् सुतम् सनारदात् सात्वतन्त्रविद्बभौ क्रूरमन्तिरमिदोतबलोद्धवाभ्याम् अभ्यर्चितो बहुनुतो मुदितेन तेन एनम् विसृज्य विपिनागतपाण्डवेय वृद्धम् विवेतित ददादृतराष्ट्रचेष्टाम् विगादामातो परमसुकृतो भोजनपते जरासन्देरुद्ध यनवतिरुषान्देतमतुराम् रदात्यैर्द्योलब्धे कदिपयबलस्त्वम् बलयुत त्रयोविंसत्यक्षौहिणी ददुपनीतम् समहृताम् म् बलाददबलेन बलोतरं त्वं भूयो बलो रसेन बलोद्यमरसेन मुमोचितैनम् निश्चेशदिग्जय समागतविश्वसैन्यात् कोन्यस्ततो हि फलपौरुषवांस्ततानि भग्नः स लग्नकृतयोऽपि नृपै प्रणुन्न युद्धम् त्वया व्यदितशोटचक्रत्व एवम् अक्षौहिणी शिव शिवास्य जगन्त विष्णो सम्भूय सैकनवति त्रिशतम् तदानी अष्टोदशे स्य समरे समुपेयुषित्वम् दृष्ट्वा पुरोतयवनम् यवनत्रिकोट्या द्ष्ट्राविदाप्यपुरमासु पयोधिमध्ये तत्रातयोगपलतक् स्वजनाननैक्षे भ्याम् त्वम् बद्ममाली शकित इव पुरान् निर्गतो धावमानो निश्चेचेनानुयातो वदसुकृत विहीनेन चैलेन्यलैषी सुप्तेनाङ्ग्र्याकतेन द्रुतमत मुषुकुन्देन भस्मीकृतेऽस्मिन् भोपा यस्मै गुहान्ते सुललितवपुषा तस्तिषे भक्तिबाजे ऐश्वाकोऽहम् रक्त्योऽस्म त्वत्प्रसादैककाङ्क्षी खादेवेति स्तुवन्तम् वरवितदिशुतम् निःस्पृहम् वीक्ष्य हृक्ष्यन् मुक्ते स्तुल्याम् च भक्तिम् दुतसकलमलम् मोक्षमभ्यासु तदनुमथुराम् गत्वा हत्वा सहोम् यवनागृता मगधपतिना मार्गे सैन्यपुरे वनिवारिता सरमविजयम् दर्बायास्मै प्रधाय पलायितो जलतिन करीम यादो, याधो वातालयेश्वर कृष्ण बोल, कृष्ण बोल, कृष्ण कृष्ण बोल, राधा समेद समेध कृष्ण बोल।